अत तृतीयाष्टक अष्टमप्रश्नप्रारम्भः ओ साङ्ग्रहण्येष्ट्या रजते इमाञ्जनताकुम् सङ्गृह्णाति द्वादशारत्ने रशना भवति द्वादशमासाः संवत्सरः संवत्सरमेवावरुन्धे मौञ्जीभवति ऊर्भीमुञ्जा आह ऊर्जमेवा वरुन्धे चित्रा नक्षत्रम् भवति चित्रम् वा एतत्कर्म यदस्वमेधः समृद्ध्यै पुण्यनामदेव यजनमध्यपस्यति पुण्यामेव तेन कीर्तिमभिजयति अपदाति ऋत्विजः लोकस्य समष्ट्यै केशस्वश्रुवपते नखा निक्रन्तते गतो धावते स्नाति अहतम् वासः परिधत्ते आप्मनोपहत्यै आचल्यत्वोपवसति स्वर्गस्य लोकस्य दूप्यै रात्रिम् जागरयन्त आसते स्वर्गस्य लोकस्य समष्ट्यै चतुष्टय्य आपो भवंती, चतुःशपो वा अश्वः प्राजापत्यः समृद्ध्यै तादिभ्यः समाभृता भवन्ति दिक्षु वा आपः अन्नम् वा आपः अद्भ्यो वा जायते यदेवाद्भ्योऽन्नम् जायते तदवरुन्धे प्रेत एव तद्दधाति चतुश्शरावो भवति दिक्ष्वेव प्रतिष्ठति भरतो रुक्मो भवतः भरत एवास्मिन् रुचम् दधाति उद्धरदिशतत्वाय सविश्वान्भवति मेऽध्यत्वाय चत्वार आरुषेदाः प्राश्नन्ति दिशा मे वज्योतिषजुहोति चत्वारि हिरण्यानि ददाति दिशा मे वज्ज्योतिविश्ववरुन्धे राज्यमध्यिष्यते तस्मिन्नशणान्विनग्दे रेताज्यम् यदाज्येरशनान्युनत्ति प्रजापतिमेव रेतसा समर्थयति गर्भमयीरशना भवति बहुवा एष कुचरो मेध्यमुपगच्छति यदस्वः पवित्रम् वैदर्भाः यद्दर्भमयीरशना भवति पुनात्येवैनम् पूतमेनम् मेध्यमालभते अश्वस्य वा आलब्ध्यस्य महिमोदक्रामत् स महर्त्विजः प्राविशत् तन्महर्त्विजाम् महर्त्विक्त्वाम् यन्महर्त्विजः प्राश्नन्ति महिमानमेवास्मिन् तद्दधति अश्वस्य वा आलब्धस्य रेत उदक्रामत् तत्सुवर्णगम् हिरण्यमभवत् यत्सुवर्णगुम् हिरण्यम् ददाति रेत तद्दधाति ओदने रेतो वा ओदनः रेतो हिरण्यम् रेतसैवास्मिन् रेतो दधाति यो वै ब्रह्मणे देवेभ्यः प्रजापधये प्रतिप्रोच्या स्वम्मेभ्यम् बध्नाति आदेवताभ्योविश्यते आपीयान्भवति यः प्रतिप्रोच्य न देवताभ्याविश्यते वसीजान्भवति यदाह ब्रह्मन्नश्वं मेध्यम् भान्स्यामि देवेभ्यः प्रजापतये ते न राध्यासमिति ब्रह्म वै ब्रह्मा ब्रह्मण एव देवेभ्यः प्रजापतये प्रति प्रोच्याश्वं मेभ्यम् बध्नाति न देवताभ्याविश्यते न सीजान्भवति देवस्यत्वा सवितुः प्रसमयिते अश्विनार्बाहुभ्यामित्याह अश्विनौ हि देवानामध्वर्यो आस्ताम् उष्णा हस्ताभ्यामित्याहयत्यै दीर्धम् वा एतद्यज्ञस्य यतयजुष्केण क्रियते इमामगर्भ्रन् रशनामृतस्येत्यधिवदति यजुष्कृत्यै यज्ञस्य समृद्ध्यै तदाहोः द्वादशारत्ने रशना कर्तव्या त्रयोदशारत्ने रेभिः वृषभो वा एष ऋतूनाम् यत्संवत्सरः तस्य त्रयोदशो मासो विष्टपम् वृषभ एष यज्ञानाम् यदश्वमेधः यथा एवमेतस्य पिष्टपम् त्रयोदशमरत्निकम् रशनायामुपादधाति यथषभस्य विष्टपगुम् सद्यस्करोति तादृगेव तत् पूर्व आयुषि विदथेषु कव्येत्याह आयुरेवास्मिन् दधाति तया देवाः सुतमा बभूवरित्याह भूतिमेवोपावर्तते ऋतस्य सामन्सरमारपन्तीत्याह सत्यम् वारतम् सत्येनैवेन मृतेनारभते अभिधासीत्याह तस्मादश्वमेधजादि सर्वाणि भूतान्यभिभवति भुवनमसीत्याह भूमानमेवोपैधि यन्तासीत्याह यन्तारमेवैनम् करोति धर्तासीत्याह धर्तारमेवैनम् करोति सोऽश्वानरमित्याह अग्नावेवैनम् वै विश्वानरेजुहोति सप्रथसमित्याह प्रजयैवैनम् अशुभिः प्रथयति स्वाहाकृतगित्याह होम एवास्यैषः पृथिव्यामित्याह अस्यामेवैनम् प्रतिष्ठापयति यगन्ताराड्यन्तासि यमनो धर्तासि धरुण इत्याह रूपमेवास्यैतम् महिमानम् याचष्टे कृष्यै त्वा क्षेमाय त्वा रय्यै त्वापोषायत्वेत्याह आशिषमेवैतामाशा आस्ते यः पितुरनुजायाः पुत्रः स पुरस्तान्वयति यो मातुरनुजायाः पुत्रः स पश्चान्नयति विश्वम् चमेवास्मात्पात्मानम् विवृहतः यो अर्वन्तम् जिघागुम् सति तमभ्यमेत वरुण इति परोमर्तः परश्वेतिशुनश्चतु रक्षस्य प्रहन्ति श्वेव वै पाप्मा भ्रातृव्यः पाप्मानमेवास्य भ्रातृव्यजगृंहन्ति सैध्रकम् सलम् भवति कर्म कर्मैवास्मै साधयति ओ गुश्चले यो हन्ति गुश्चल्वाम् वै देवाः शुचन्यदधुः शुचैवास्य शुचगुंहन्ति पाप्मा वा एतमेऽप्सदेत्याहुः योऽश्वमेधेन यजत इति अश्वस्याधस्पदमुपास्यति वज्रे वा अश्वः प्राजावत्यः वज्रेणैव पाप्मानम् भ्रातृभुजमपक्रामति दक्षिणापप्रावयति पाप्मानमेवास्माच्छमलमपप्रावयति कैषेक उदोहो भवति आयुर्वा इषेका आह आयुरेवास्मिन् दधति अमृतम् वा इषेका आह अमृतमेवास्मिम् दधति वेदसशाखोपसम्बद्धा भवति अप्सुजो निर्वाश्वः अप्सुजो वेतसः स्वादेवेन यो, वे स्वादे यो नेर्निर्मिमीते पुरस्ताह प्रत्यञ्चमभ्युदूहति पुरस्तादेवास्मिन् प्रदेच्यमृतम् दधाति अहम् च त्वञ्च वृत्तहन्विति ब्रह्मा ब्रह्मक्षत्रे एव सन्दधाति अभिक्रत्वेन्द्रभुवरभज्वन्नित्यध्वर्युर्यजमानम् वाचयत्यभिजित्यै चत्वारऋत्तिजः समुक्षन्ति आभ्य एवैनम् च दसृभ्यो दिग्भ्योऽभिसमीरयन्ति शरेन राजपुत्रैः सहा ध्वर्युः पुरस्तात् अयगम् राजा वृत्रम् बध्यादिति राज्यम् वा अध्यर्युः क्षशतरम् राजपुत्रः राज्येनैवास्मिन् क्षत्रम् दधाति सेना राजभिरुग्रैः सह ब्रह्मा दक्षिणत उदम् तिष्ठन् प्रोक्षति अनेनाशेनध्येनेष्ट्वा अयगम् राजाप्रतिधिष्योऽस्ति बलम् वे ब्रह्मा बलमराजोऽग्नः बलेनैवास्मिन् बलम् दधाति शतेन सूतग्रामणिभिः सह होता पश्चात्प्राम् तिष्ठन् प्रोक्षति अनेनाश्वेन मेऽध्येनेष्ट्वा अयगम् राजास्यै विशः बहुग्रै बह्वश्वारे बह्वजाभिकायै बहुव्रीहलवाले बहुमाशतिलायै बहुहिरण्यायै बहुहस्तिकायै बहुदासपूरुषायै रयिमध्यै पुष्टिमध्यै बहुराजस्पोषायै राजास्त्विति भूमा विहोताः भूमासूतग्रामण्यः भूम्नैवास्मिन्भूमानम् दृधाति सरेण क्षत्रसङ्ग्रहीतृभिः सहोद्गाता उत्तरतो दक्षिणा तिष्ठन् प्रोक्षते अनेनाश्वेन मेऽध्येनेष्ट्वा अयगम् राजा सर्वमायुर्वेत्विति आयुर्वा उद्गाता आयुः क्षत्रसङ्ग्रहीतारः आयुषैवास्मिन्नायुर्दधाति शतगम् शतम् भवन्ति सदायुः पुरुषः सतेन्द्रियः यथा वेहविषो गृहीतस्य स्कन्दति एवम् वा एतदश्वस्य स्कन्दति यन्निक्तमनालब्धमुत्सृजन्ति यत्स्तोक्या अन्वाः सर्वभुतमेवैनम् करोऽत्यस्कन्दाय अस्कन्दगृंहितत् यद्धृतस्य स्कन्दति सहस्रमन्वाः सहस्रसंवितः सुवर्गो लोकः सुवर्गस्य लोकस्याभिजित्यै यत्परिमिता अनुब्रूयात् परिमितमवरुन्धेत अपरिमितान्वः अपरिमितः सुवर्गो लोकः सुवर्गस्य लोकस्य समष्ट्यै स्तोक्या जुहोति या एव वर्षा आपः ता अवरुन्धे अस्याञ्जुहोति इयम् वा अग्निर्वयी स्वानरः अस्यामेवैनाः प्रतिष्ठापयति उवाचः प्रजापतिः स्तोख्यासु वा अहमश्वमेधकम् सग्स्थापयामि तेन ततः सग्स्थितेन चरामीति अग्नये स्वाहेत्याह अग्नय एवैनम् जुहोति सोमाय स्वाहेत्याह सोमायैवैनम् जुहोति सवित्रे स्वाहेत्याह सवित्र एवम् जुहोति सरस्वत्यै स्वाहेत्याह सरस्वत्या एवैनम् जुहोति उष्णे स्वाहेत्याह उष्ण एवम् जुहोति बृहस्पतये स्वाहेत्याह बृहस्पतय एवम् जुहोति अपाम् मोदाय स्वाहेत्याह अभ्य एवम् जुहोति वायभे स्वाहेत्याह वायव एवम् जुहोति मित्राय स्वाहेत्याः मित्राय एवम् जुहोति वरुणाय स्वाहेत्याह वरुणायैवैनम् जुहोति एताभ्य एवम् देवताभ्यो जुहोति दश सम्पादम् जुहोति दशाक्षराविराट् दशा अन्नम् विराट् विराजैवान्नाद्यमवरुन्धे प्रवा एषोऽस्माल्लोकाच्यवत् यः पराचीराहुतेर्जुहोति पुनः पुनरभ्यावर्तम् जुहोति अस्मिन्नेव लोके प्रतितिष्ठति देतागुम्हवापसोऽश्वमेधस्य सर्गस्थितिमुवाच स्कन्दाय अस्कन्धम् हि तत् यद्यज्ञस्य सर्गस्थितस्य स्कन्दति प्रजापतये त्वादिष्टम् प्रोक्षामीति पुरस्ता प्रत्यङ्गम् प्रोक्षति प्रजापतिर्वै देवानामन्नादो वीर्यावान् अन्नाद्यमेवास्मिन् वीर्यम् दधाति तस्मादश्वः पुशो नामन्नादो तेति दक्षिणतः इन्द्राग्नि वै देवानामोऽष्ठौ विष्ठौ ओज एवास्मिन् बलम् दधाति तस्मादश्वः पशो नामा जिष्ठो बलिष्ठः वायवेत्येति पश्चात् वायुर्वे दे। देवानामाशःसारसारितमः जपमेवास्मिन् दधाति तस्मादश्वः पशो नामाशः सारसारितमः विश्वेभ्य स्वा देवेभ्य इत्युत्तरतः विश्वे वै देवा देवानाङ्गशस्यतमाः यश एवास्मिन्दधाति तस्मादश्वः पशूनाम् यशस्तितमः देवेभ्यस्तेत्यधस्तात् देवा वै देवानामपचिततमाः अपचितिमेवास्मिन् दधाति तस्मादश्वः पशूनामपचिततमः सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात् सर्वे वै देवास्त्युषिमन्तो हरश्विनः तिषिमेवास्मिन हरो दधाति तस्मादश्वः पशूनाम् तिशिमानहरस्य तमः दिवेत्त्वान्तरिक्षायत्वा पृथिव्ये त्वेत्याह एभ्य एवैमम् लोकेभ्यः प्रोक्षति सते त्वा सते त्वाद्भ्यस्पौषधेभ्यस्त्वा विश्वेभ्यस्त्वा भूतेभ्य सर्वाणि भूतान्युपजीवन्ति ब्रह्मवादिना वदन्ति यत्प्राजापत्योश्वः अथ कस्मादेन मन्याभ्यो देवताभ्योऽभिप्रोक्षतीति अश्वे वै सर्वा देवता अन्वायत्ताः तम् यद्विश्वेभ्यस्वा भूतेभ्य इति प्रोक्षति देवता एवास्मिन्नन्वा यातयति तस्मादश्वे सर्वा देवता यथा मे हरिषो गृहीतस्य स्कन्दति एवम् वा एतदश्वस्य स्कन्दति यत्प्रोक्षितमनालब्धमुत्सृजन्ति यदश्वचरितानि यत जुहोति सर्वभुतमेवैनम् करोत्यस्कन्दाय हस्कन्दगम् हि तत् यद्धुतस्य स्कन्दति यीङ्काराय स्वाहेङ्कृताय स्वाहेत्याह एतानि वा अश्वचरितानि चरितैरेवैरम् समर्थयति तदाहुः अनाहुतयो वा अश्वचरितानि नैता होतव्या इति अथो खल्वाहुः होतव्या एव अत्र वा विद्वानश्वमेधकम् सव्यस्थापयति यदश्वचरितानि जुहोति इति बहिर्धा वा येन मे जनयति स्यादायतने यत्राग्नेराहुतेर्जुहोति सावित्रिया इष्ट्या पुरस्तात्सृष्टकृतः आहवनीयेष्वचरिता न जुहोति आयतन एवास्याहुतेऽर्जुहोति तास्मै भ्रातृभुजम् जनयति तदा यज्ञमुखे यज्ञमुखे होतव्या यज्ञस्य कृत्यैः स्वर्गस्य लोकस्यानुख्यात्या इति अथो खल्वाहुः यद्यज्ञमुखे यज्ञमुखे जुहुजात् पशुभिर्गजमानम् व्यर्धयेत् अवसुवर्गाल्लोकात्पद्येत पापीजाम् स्यादिति सकृदेव होतव्या आह न गजमानम् पशुभिर्व्यर्थयति अभिसुवर्गम् लोकम् जयति न पापीजान् भवति अष्टाचत्वारिकम् शतमस्वरूपाणि जुहोति अष्टाचत्वारिविंशदक्षरा जगति जागता श्वः प्राजापत्यः समृद्ध्यै एकमतिरिक्तम् जहोति तस्मादेकः प्रजास्वर्धकः विभोर्मात्रा माता असौ पिता आभ्यामेवैनम् परिददाति अश्वासि हसीत्याह शास्त्येवैनमेतत् अस्माच्छिष्टाः प्रजा जायन्ते अत्योऽसीत्याह तस्मादश्वः सर्वान् पशोनत्येति तस्मादश्वः सर्वेषाम् पशो राजश्रेष्ठ्यम् गच्छति प्रेयसश्रेष्ठ्यमाप्नोति य एवम् वेद नरोऽस्यर्वासि सत्यरसि वाध्यसीत्याहमेवास्यैतन्महिमानम् याचष्टे यजर्नामासीत्याह एतद्वा अश्वस्य प्रियम् नामधेयम् प्रियेणैवैनन्नामधेयेन अभिवदति तस्मादप्यामित्रौ सङ्गत्या नाम् नाचेभेदे मित्रमेव भवतः आदित्यानाम् तत्त्वाम् विहीत्याह आदित्यानेवैनम् गमयति अग्नये स्वाहा स्वाहे इन्द्राग्निभ्यामिति पूर्वहोमाञ्जुहति पूर्वजे वद्भिषन्तम् भ्रातृजमति क्रामति भूरति भुवे त्वा भव्यायत्वा भविष्यते त्वेत्युत्सृजति सर्वत्वाय देवा आशापाला एतम् देवेभ्यो स्वम् मेधाय प्रोक्ष्यतम् राजपुत्रा देवा आशापालाः तेभ्य परिददाति ईश्वरो वा अश्वः प्रमुग्धः परा अम् परावतम् गन्तोह विहभृति स्वाहेहविहृति स्वाहेहरम् दिस्वाहेहरमति स्वाहेति च दृशुपत्सि जहवति एता वा अश्वस्य बन्धनम् ताभिरेवैनम् बध्नाति तस्मादश्वः प्रमुक्तो बन्धनमागच्छति तस्मादश्वः प्रमुक्तो बन्धनम् न वा अश्वमेधः राष्ट्रे खलु वा एते व्यागच्छन्ते ये स्वम् मेभ्यगुम् रक्षन्ति तेषाम् य उग्रचम् गच्छन्ति राष्ट्रादेवते राष्ट्रम् गच्छन्ति अथ च उग्रचम् न गच्छन्ति राष्ट्रादेवतेऽ्यवच्छिद्यन्ते परा वा एष शिच्यते यो बलोऽश्वमेधेन गदते यदमित्रास्वम् विन्देरन्ये अन्येता अस्य यज्ञः चतुश्शता रक्षन्ति यज्ञस्याघाताय अथान्यमाने रप्रोक्षेयोः सैव ततः प्रायश्चित्तिः प्रजापतिरकामयताश्वमेधेन यजेजेति स तपोतप्यता तस्य ते पालस्य देवता उदक्रामन् सा दीक्षा भवत् स एतानि तान्यजुहोद् तैर्वै सदीक्षामवरुन्ध यद्वै एष्वदेवानि जुहोति येक्षामेव तैर्यजमानो वरुन्धे सप्त जुहोति सप्तहितारेवता उदक्रामन् अन्वहम् जुहोति अन्वहमेव दीक्षामवरुन्धे त्रीणि वैश्वदेवानि जुहोति चत्वार्योद्ग्रहणानि सप्त सम्पद्यन्ते सप्तवेष्याः प्राणाः प्राणादीक्षा प्राणैरेव प्राणान्दीक्षामवृन्धे एकविगुंसतिम् वैश्वदेवान् जुहोति एकविगुंशतिर्वै देवलोकाः द्वादशमासाः पञ्चर्तवः त्रय इमे लोकाः असावादित्य एकविगुंसः एष सु वर्गो क्षत्राम् श्रीः तद्वर्धनस्य विष्टपम् तत्स्वाराज्यमुच्यते त्रिगुंशतमोद्ग्रहणानि जुहोति त्रिगिंशदक्षरा विराट् अन्नम् विराट् विराजैवान्नाद्यमवरुन्धे त्रेधा विभज्य देवतान् जुहोति द्यावृतोऽपि देवाः द्यावृत इमे लोकाः येषाम् लोकानामाप्ति येषाम् लोकानाम्लत्यै अभवा एतस्मा प्राणाः क्रामन्ति यो दीक्षामतिरेचयति सप्ताहम् प्रचरन्ति सप्तवीशीर्षण्याः प्राणाः प्राणादीक्षा प्राणैरेव प्राणान्दीक्षामवरुन्धे वोर्णाहुतिमुत्तमाञ्जुहोति सर्वम् वैपोर्णाहुतिः सर्वमेवाप्नोति अथोक्जम् वै पोर्णाहुतिः अस्यामेव प्रतितिष्ठति प्रजापतिरश्वमेधमसृजत तकम् सृष्टम् न किञ्चनोदयच्छत् तम् वै ईश्वरे वान्येवोदयच्छन् यद्वै ईश्वरेवानि जुहोति यज्ञस्योद्यत्यै स्वाहाधिमाधीताय स्वाहा स्वाहा मनः प्रजापतये स्वाहा काल स्वाहाकस्मै स्वाहागतमस्मै स्वाहेति प्राजापत्ये मुख्ये भवतः प्रजापतिमुखाभिरेवैनम् देवताभिरच्छते अदित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडे काले स्वाहेत्याः इयम् वा अदितिः अस्या एवैनम् प्रतिष्ठायोगच्छते सरस्वत्यै स्वाह सरस्वत्यै बृहत्यै स्वाह सरस्वत्यै पावकायै स्वाहेत्याह मार्गै सरस्वती माचै वै नमुद्यच्छते पूष्णे स्वाहा पूष्णे प्रवध्याय स्वाहा पूष्णे नरन्धिराय स्वाहेत्याः पशवो पूषा पशुभिरेवै नमुद्यच्छते त्वष्ट्रे स्वाहा त्वष्ट्रे दुरीपाय स्वाहा त्वष्ट्रे पुनरुपाय स्वाहेत्याह त्वष्टावे पशूनाम् मिथुना नागुं रूपकृते रूपमेव पशुषु दधाति अधोरूपैरेवैनमुद्यच्छते विष्णवे स्वाहा विष्णवेन कुर्यपाय स्वाहा विष्णवेन भोजपाय स्वाहेत्याह यज्ञावै विष्णः यज्ञायैवैनमुद्यच्छते पूर्णाहुतिमुत्तमाञ्जुहोति प्रत्युत्तध्ये स जत्वाय सारित्रमष्टाकपालम् प्रातर्निर्भवति अष्टाक्षरा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवनादेवैनम् गायत्रियाश्छन्द्रोधिनिर्मिमीते अथ प्रातः वनमेव ते नाप्नोति सवित्रेऽप्रसवित्र एकादशकपालम् मध्यन्दिने एकादशाक्षरात् त्रिष्टुभ त्रेष्टुभम् माध्यङ्गिनगुम् सवनम् माध्यन्दिना द्वादशाक्षरा जगती जागतम् तृतीयसवनम् तृतीयसवना देवैनम् जगत्याष्ठम् वसोऽधि निर्मिमीते अथो तृतीयसवनमेव तेना आप्नोति जगती छन्दः ईश्वरो वा अश्वः प्रमुग्धः पराम् परावतम् गन्तोह इह धृति स्वाहेह विधृति स्वाहे हरन्ति स्वाहे चतस्र आहुतेऽर्जुहोति सदस्व दिशः दिग्भिरेवैनम् परिगृह्णाति आश्वत्थो व्रजो भवति प्रजापतिर्देवेभ्यो निराजत अश्वरूपम् कृत्वा सोऽत्थे संवत्सरमतिष्ठत् तदश्वत्थस्याश्वत्थत्वम् यदाश्वत्थो व्रजो भवति स्व एवैन यो नो प्रतिष्ठापयति आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसे जायतामित्याह ब्राह्मण एव ब्रह्मवर्चसम् दधाति तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चस्य जायत आस्मिन् राष्ट्रे राजन्य इषव्यः शोरो महारथो जायतामित्याह राजन्य एव शौर्यम् महिमानन्दधाति तस्मात् पुराराजन्य इषव्यः शोरो महारथो जाय दोग्ध्रीधेनुरित्याह धेन्वामेव पयो दधाति तस्मात् पुरा दोग्ध्रीधेनुरजायत वोढानड्वानित्याह अनडुह्येव वीर्यम् दधाति तस्मात् पुरा वोढा नड्वानजायत आशःसप्तिरित्याह अश्व दधाति तस्मात्पुरा सुरश्वो जायत पुरन्धिर्योषेत्याह योषित्येव रूपम् दधाति तस्मात् स्त्रीयुवतिः प्रिया भावुका जिष्णोरथेष्ठा इत्याह आहवै तत्र जिष्णोरथेष्ठा जायते यत्रैतेन यज्ञेन गजन्ते सभे योऽजुवेत्याः यो वैपो अर्बवयसि सभे योऽजुवाः तस्माद्युपापुमाहान् प्रियो भावुकः आस्य यजमानस्य वीरो जायतामित्याह आहवेदत्र वी यजमानस्य वीरो जायते यत्रैतेन यज्ञेन गजन्ते निकामे निकामेन पर्जन्यो वर्षत्यह निकामे निकामे हवेदत्र पर्जन्यो वर्षति यत्रैतेन यज्ञेन गजन्ते फलिन्यो न कोषधयः पच्यन्तामित्याह फलिन्यो हवैतत्रौषधयः पच्यन्ते यत्रैतेन यज्ञेन गजन्ते योगक्षेमो नः कल्पतामित्याह कल्पते हवैतत्र प्रजाभ्यो योगक्षेमः यत्रैतेन यज्ञेन यजन्ते प्रजावतिर्देवेभ्यो यज्ञान्यादिशत् स आत्मन्न स्वमेधमधत्ता तम् देव अब्रुवन् एष मामजज्ञः यदश्वमेधः अप्येवनोऽत्रास्ति तेभ्य एतानन्न होमान् प्रायच्छत् तानजुहोत् यदाज्यम् यदाज्येन जुहोति अग्निमेव तत्प्रीणाति मधुना जुहोति महत्यै वा एतद्देवतायै रूपाम् यन्मधु यन्मधुना जुहोति महतीमेव तद्देवताम् प्रीणाति तण्डुलैर्जुहोति वसूनाम् वा एतद्रूपाम् यत्तण्डुलाः यत्तण्डुलैर्जुहोति वसूनेव तत्प्रीणाति पृथुकैर्जुहोति रुद्राणाम् वा एतद्रूपम् यत्पृथुकाः यत्पृथुकैर्जुहोति रुद्राणे वदत्प्रीणाति लाजैर्जुहोति वा एतद्रूपम् यल्लाजाः यल्लाजैर्जुहोति आदित्यानेदत्प्रीणाति करम्भेर्जुहोति विश्वेषाम् वा एतद्देवानागम् रूपम् यत्करम् वा यत्करम् रेर्जुहोति विश्वानेव तद्देवाम् प्रीणाति धानाभिर्जुहोति नक्षत्राणाम् वा एतद्रूपम् यद्धाना यद्धानाभिर्जुहोति नक्षत्राण्येव तत्प्रीणाति सर्तुभिर्जुहोति प्रजापतेर्वा एतद्रूपम् यत्सक्तः यत्सक्तुभिर्जुहोति प्रजापतिमेव तत्प्रीणाति मसोऽस्यैर्जुहोति सर्वासाम् वा एतद्देवता नागुम् रूपम् यन्मसोऽस्यानि यन्मसोऽस्यैर्जुहोति सर्वा एव तद्देवताः प्रीणाति प्रियङ्गुतण्डरेर्जुहोति प्रियाङ्गा हवैनामैते एतैर्वै देवा अश्वस्याङ्गानि समदधुः यत्प्रियङ्गुकण्डुलैर्जुहोति अश्वस्यैवाङ्गानि सन्दधाति दशान्ना निजुहोति दशा अक्षरा विराट् यान्ना यस्यावरुध्यै प्रजापतिरश्वमेधमसृजत तगम् सृष्टकम् रक्षाकस्य जिघागुम् सान् स एतान् प्रजापतिर्नक्तकम् होमानपश्यत् हो न जुहोद् तैर्वयस यज्ञाद्रक्षागस्य पाहन् यन्नक्तगम् होमान् जुहोति यज्ञादेवतैर्व्यजमानो रक्षागस्य पहन्ति आज्येन जुहोति वज्रो वा आज्यम् वज्रेणैव यज्ञाद्रक्षागस्य वहन्ति आज्यस्य प्रतिपदम् करोति प्राणो वा मुखत एवास्य प्राणम् दधाति अन्नहोमाञ्जुहोति शरीरवदेवावरुन्धे व्यत्यासम् जुहोति उभयस्यावरुद्ध्यै रक्तम् जुहोति रक्षसामपहत्यै आद्येनाम् ततो जुहोति प्राणोवाद्यम् उभयत एवास्य प्राणम् दधाति पुरस्ताच्चोपरिष्टाच्च एक स्वाहे अस्ोके प्रतिषति द्वाभ्यावाहेत अमुश्म लोके प्रतिषति उभोर लोकजो प्रतिषति अस्म्भिस्ाश्म्मिस् शताजस्वाहेत शजुर्वीपुरष शतवीज आयुरवीवंधे सहस्राजस्वाहे आयुर्वेदसहस्रम् आयुरेवावरुन्धे सर्वस्मै स्वाहेत्याः अपरिमितमेवावरुन्धे प्रजापतिम् वा एष ये इप्सेत्याहुः योऽश्वमेधेन यजत इति अथो आहुः सर्वाणि भूतानीति एकस्मै स्वाहेत्याः प्रजापतिर्वा एकः तमेवाप्नोति भ्यावाहे पूर्वमाहुतेर्जुति अभी पूर्वमेवर्गोको जुहोति सुवर्ग लोकमेति सततं जुहोति सुवर्गस् लोकस्थ सई श स्वाहेह शजुर्मे पुष आयुरवीजमुंधे सहस्राजस्वाहेत्याः आयुर्वै सहस्रम् आयुरेवावरुन्धे अयुताजस्वाहा नयुताजस्वाहा प्रयुताजस्वाहेत्याः त्रय इमे लोकाः इमानेव लोकानवरुन्धे अर्बुदायस्वाहेत्याः वाग् अर्बुदम् वाचमेवावरुन्धे न्यर्बुदायस्वाहेत्याः यो वै वाच भूम तन्यबुद्वाच एव भूमृंधे सवाहे समनों मध्याय स्वाहे मध्यमेवानोति अस्वाहे अनोतिराधा स्वाहे परार्धम्वानों उषसे स्वाहाव्यष्टि स्वाहेत्याह रात्रिर्वा उषाः अहर्व्यष्टिः अहोरात्रे एवावरुन्धे अथो अहोरात्रयोरेव प्रतिष्ठति तायदुभयेर्विवादानक्तम् वाजुभुयात् अहोरात्रे मोहयेत् कृषसे स्वाहाव्यष्टे स्वाहोदेष्यते स्वाहोद्यते स्वाहेत्यनुदिते जुहोति उदिताय स्वाहा सुवर्गाय उदिता स्वाहा आयनाय स्वाहा प्रायणाय स्वाहेत्युद्रावाञ्जुहोति सर्वमेवै नमस्कन्नकम् सुवर्गम् लोकम् गमयति अर्णये स्वाहा सोमाय स्वाहेति पूर्वहोमाञ्जुहोति पूर्वजेव द्विषन्तम् भ्रातृ यमति क्रामति पृथिम् ये स्वाहान्तरिक्षाय स्वाहेत्याह तथायजुरेवैतत् अग्नये स्वाहा सोमायस्वाहेति पूर्वदीक्षाजुहोति पूर्वरेवद्विषन्तम् भ्रातृजमतिक्रामति देव्यये स्वाहान्तरिक्षाय स्वाहेत्येकविगुंसिनीन्दीक्षाञ्जुहोति दे, एकविगुंसि दे, रमे देवलोकाः द्वादशमासाः पञ्चर्तवः त्रयजमे लोकाः असावत्य एकविगुंसः एष सुर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै भुवो दीक्षा कर्मणेऽत्यृतदीक्षा जुहोति ऋतोनेवास्मै कल्पयति अग्नये स्वाहा वाजवे स्वाहेति जुहोत्यनन्तरित्यै अर्वाङ्गज्ञः सङ्क्रामत्वित्याप्त्येर्जुहोति स्वर्गस्य लोकस्याप्त्ये भूतम् भव्यम् भविष्यदिति पर्या आप्तेऽर्जुहोति स्वर्गस्य लोकस्य पर्या आप्त्यै आमे गृहाभवन्तित्याभोर्जुहति स्वर्गस्य लोकस्याभूत्यै अग्निनाथपोन्वभवमित्यनुभोर्जुहति स्वर्गस्य लोकस्यानुभूत्यै स्वाहाधिमाधीता जः स्वाहेति समस्तानि वैश्वदेवानि जुहोति समस्तमेवद्भिषन्तम् भ्रातृजमति क्रामति तद्भ्यः स्वाहा हनोभ्यागस्वाहेत्यङ्गहोमाञ्जुहोति अङ्गे अङ्गे वै पुरुषस्य पाप्मोपश्लिष्टः अङ्गादङ्गादेवैनम् पाप्मनस्तेन मुञ्चति अञ्चेताजस्वाहा कृष्णाजस्वाहाश्चेताजस्वाहेत्यश्वरूपाणि जुहोति रूपैरेवैरतुम् समर्थयति ओषधे स्वाहा मूले स्वाहेषधि होमा जुहोति दैयो वा ओषधय पुष्पेन्न फल गृह मूलेो भगैरवरुंधे वनस्पतिभ्य स्वाहे वनस्पति होमाजुहोति आग्सावृद्ध्य मेषस्त्वापचतैरपत्वित्यपाव्यानुजुहोति प्राणा वै देवा अपाव्याः प्राणानेवावरुन्धे कोऽप्याभ्यस्वाहाद्भ्यस्वाहेत्यपादम् होमा अञ्जुहोति अप्सु वा आपः अनन्नम् वा आपः अद्भ्यो वा अनन्नम् जायते यदेवाद्भ्योऽन्नम् जायते तदवरुन्धे अंभागुंसी जुहोति अयं वै लोकं भागुंसी तबोधिपत अर्ज्योति यदागुंसी जुहोति इमेव लोकमे वसूनागुंसाज्य गति्योतिरवंधे न भागुंसी जुहोति अंतरक्ष वे न भागुंसी तरद्र अपतय वायुर्ज्योतिगुंसी जुहोति अन्तरिक्षमेवावरुन्धे रुद्राणागुंसायुज्यम् गच्छति वायुम् ज्योतिरवरुन्धे महाकुंसि जुहोति असौ मे लोकमहाकुंसि तस्यादित्या अधिपतयः सौर्योज्योतिः यन्महाकुंसि जुहोति अमुमेव लोकमवरुन्धे आदित्यानागुंसायुज्यम् गच्छति सौर्यम् ज्योतिरवरुन्धे न मो राज्ञे न वा वरुणायेति यव्यानि जुहोति अन्वाद्यस्यावरुद्ध्यै वयोभोर्वातो अभिपातो स्रा यव्यानि जुहोति पशूनामवरुध्यै प्राणायस्वाहानायस्वाहेति सन्तति स्वर्गस्य लोकस्य सन्धत्यै सिताय स्वाहासितायस्वाहेति प्रमुक्तेर्जुहोति स्वर्गस्य लोकस्य प्रमुक्त्यै पृथिव्यये स्वाहान्तरिक्षाय स्वाहेत्याह तथा यजिरेवैतत् दत्पते स्वाहा दन्तकाय स्वाहेति शरीरहोमाञ्जहोति इति लोकमेव तैर्यजमानो वरुन्धे तस्त्वाजुनक्ति सत्त्वाजुनक्ति परिधीन इमक्ति इमेवै लोकाः परिचयः मानेवास्मै लोकान् युवक्ति स्वर्गस्य लोकस्य समष्ट्यै यः प्राणतो य आत्मदा इति महिमानौ जुहोति स्वर्गो वै लोको महः स्वर्गमेव ताभ्याम् वरुन्धे आ ब्राह्मणो ब्रह्म समस्तानि ब्रह्म वर्तसा न वरुन्धे जज्ञबीजमिति जुहोत्यनन्तरित्यै अग्नये समनमत्पृथिव्यै समनमदिति सन्नति होमाम् जुहोति स्वर्गस्य लोकस्य सन्नत्यै भूताय स्वाहा भविष्यते स्वाहेति भूता भव्यौ होमौ जुहोति अयम् वै लोको भूताम् आसौ भविष्यत् अनयोरेव लोकजोः प्रतितिष्ठति सर्वस्यात्यै सर्वस्यावरुध्यै यदक्रन्दः प्रथमम् जायमानयित्यश्व स्तोमीयम् जहोति सर्वस्यात्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वम् जयति यजते यगुचैनमेवम् वेद यज्ञगम् रक्षागुस्य जिघागुम् सान् स एतान् प्रजापतिर्नक्तगम् होमान् अपश्यत् तैर्वै स यज्ञाद्रक्षागस्य पाहन् यन्नक्तगुम् होमाञ्जुहोति यज्ञादेवतैर्यजमानो रक्षागस्य पहन्ति कुषसे स्वाहाव्यष्टे स्वाहेऽर्त्यन्ततो जुहोति स्वर्गस्य लोकस्य समष्ट्यै एकयोपो वैकादशमी वा अन्येषा अन्यज्ञानाय्यूपा सुवर्गस्य लोकस्याभिजित्यै वैलिरो वा खादिरो वा पालाशो वा अन्येषा अन्यज्ञक्रतूनाय्योपाभवन्ति राजुदार एकविगुंसत्यरत्निरश्वमेधस्य सुवर्गस्य लोकस्य समष्ट्यै नान्येषाम् पशूनाम् ते जन्या अवद्यन्ति अवद्यन्त्यश्वस्य आत्मा वैते जनी त्मनोपहत्यै पक्षशाखायामन्येषाम् पशूनामवद्यन्ति एतसशाखायामश्वस्य अप्सृजो निर्वा अश्वः अप्सृजो वेतसः स्व एवास्यजो नापवद्यति योपेषु ग्राम्यान् पशून्नि गिञ्जन्ति आलोकेष्वारण्यान् धारयन्ति पशूनाम् व्यावृत्त्यै आघ्राम्यान् वशान् लभन्ते प्रारण्यान् सृजन्ति आत्मनोपहत्यै राज्युदालमग्निष्ठम् विनोति भ्रूणहत्या या अपहत्यै औतुद्रवा वभितो भवतः पुण्यस्य गन्धस्यावरुध्यै भ्रूणहत्यामेवास्मादपहत्या पुण्येन गन्धेन भजतः परिगृह्णाति षड्भैलवा भवन्ति ब्रह्मवर्चसस्यावरुद्ध्यै षट्खादिराः तेजसोऽवरुध्यै षट्पाकाशाः सोमपीठस्यावरुध्यै एकविगंसतिः सम्पद्यन्ते एकविगुंसति रमे देवलोकाः द्वादशवासाः पञ्चर्तवः त्रयलिमे लोकाः असाव एकविगुंसः एष सु वर्गो लोकः स्वर्गस्य लोकस्य समष्ट्यै शतम् पशवो भवन्ति शतायुः पुरुषः सतेन्द्रियः आयुष्येवेन्द्रिये प्रतितिष्ठति सर्वम् वाश्वमेऽध्याप्नोति अपरिमिता भवन्ति अपरिमितस्यावरुद्ध्यै ब्रह्मवादिना वदन्ति कस्मात् सत्यात् दक्षिणतो अन्येषा अम् पशूना वपपद्यन्ति उत्तरतोश्वस्येति वारुणो वा अश्वः एषा वै वरुणस्य दिक् स्वायामेवास्य दिश्यपद्यति यदितरेषाम् पशूनामपद्यति शतदेवत्यन्तेनावरुन्धे चिते यज्ञावधिवैतसे कटेश्वम् चिनोति अप्सिजो निर्वा अश्वः अप्सिजो पश्चात्प्राचीनम् गोमृगम् प्राणापानादेवास्मिन् सम्यम् च उद्घाति अस्वन्तो परम् गो मृगमिति सर्वहुत एताञ्जुहोति येषाम् लोकानामभिजित्यै आत्मनाभिजुहोति नगं सतनं करोति सा आत्मामिल्लोके भवति य एवम् अथोवसो रेव धारान्तेनावरुन्धे युलवर्दाजस्वाहा बलिवर्दाजस्वाहेत्याह संवत्सरो वा युलवर्दः हरिवत्सरो बलिवर्दः संवत्सरादेव परिवत्सरादायुरवरुन्धे आयुरेवास्मिन् दधाति तस्मादश्वमेधजाति जरसा विस्रसामम् लोकमेति एतपि पुंसाग्निर्भवति एकविगुंशस्तोमः एकविगुंशतिरुजोपा आह यथा वा अश्वावर्षभा वा वृषाणः सर्गस्फुरेरन् एवमेतत् स्तोमाः सर्गस्फुरन्ते यदेकविपुंशाः ते यत्समृच्छेरन् हन्येतास्य यज्ञः द्वादश एवाज्ञः स्यादित्याहुः द्वादशस्तोमः एकादशजोपा आः यद्वादशोऽग्निर्भवति द्वादशवासा संवत्सरः संवत्सरेणैवास्मा अन्नमवरुन्धे यद्दशयोपा भवन्ति दशाक्षरा विराट् अन्नम् विराट् विराजैवान्नाद्यमवरुन्धे य एकादशः स्तन एवास्यै सः गृह एवैनान्तेन ना तदाहुः यद्वादशोऽग्निः स्याद्वादशस्तोम एकादशजोपा आह यथा स्थूरिणाजायात् तादृक्तत् एकविगुंस एवाग्निः स्यादित्याहुः एकविगुंसस्तोमः एकविगुंसतिर्जोपा आह यथा पृष्टिभिर्जाति तादृगेव तत् यो वा अश्वमेधे तिस्रः कगुभो वेद भवति एकविपुंसोग्निर्भवति एकविपुंसस्तोमः एकविपुंसति ऋजोपा आह एता वा अश्वमेधे तिस्रः ककुभः य एवम् वेद ककुद्धराज्ञा अम्भवति यो वा अश्वमेधे शीर्षाणि वेद शिरोहराज्ञा अम्भवति एकविपुंसोऽग्निर्भवति एकविपुंसस्तोमः एकविपुंसति एतानि वा अश्वमेधे त्रीणि शीर्षाणि य एवम् वेद शिरोहराज्ञाम् भवति देवा वा अश्वमेधे पवमाने स्वर्गम् लोकन्न प्राजानान् तमस्वः प्राजानात् यदश्वमेधेस्ते धे न मेध्येनादञ्जो बहिष्पवमानकम् स्वर्गस्य लोकस्य प्रज्ञाद्यै न वै मनुष्यः सुवर्गम् लोकमञ्जसा वेद अश्वमै वे सुवर्गम् लोकमञ्जसावेद यदुद्गातोद्गायत् यथा क्षेऽत्र ज्ञान्येन पथा प्रतिपादयेत् पाद्रेतत् एदातारमपरुध्या अश्वमुद्गीथाय वृणीते यथाक्षेऽत्रज्ञाम् जसानयति एवमेवै नमः स्वर्गम् लोकमञ्जसा नयति उच्छमन्वारभन्ते स्ववर्गस्य लोकस्य समष्ट्यै हिङ्करोति सा मैवाकः हिङ्करोति उद्गीथ एवास्य सः बडबावपरुन्धन्ति युधनत्वायप्रजात्यै अथो यथोपगातार उपगायन्ति तादृगेव तत् प्राजापत्यो वा अश्वः प्रजापतिरद्येथः उद्गीथमेवावरुन्धे अथो ऋक्सामयोरेव प्रतितिष्ठति हिरण्येनोपाकरोति ज्योतिर्वै हिरण्यम् ज्योतिरेव मुखतो दधाति यजमाने च अथो हिरण्यज्योतिरेव यदश्व पशून्यजुञ्जन्ति यज्ञादेव तज्जज्ञम् प्रयुङ्क्ते अश्वन्तो परम् वा मृगाम् तानग्निष्ठ आलभते सेनामुखमेव तत्सगृश्यति तस्माद्राजमुखम् भीष्मम् भावुकम् आग्नेयम् कृष्णग्रीवम् पुरस्ताल्ललाटे पूर्वाग्निमेव तम् तस्मात्मोर्भाग्यम् पुरस्तात् स्थापयन्ति पोष्णमन्वञ्चम् अन्नम् वै पूषा तस्मात्मोर्भाग्नावाहार्यमाहरन्ति ऐन्द्रापोष्णमुपरिष्टाद् ऐन्द्रा वैराजन्यान्नम् पूषा अन्नाद्यनैवै नमो भजतः तस्मा तस्माद्राजन्याम्नादो भावुकः आग्नेयौ कृष्णग्रीवौ बाहुवोः बाहुवो रेव वीर्यम् धत्ते तस्माद्राजन्यो बाहुबली भावुकः त्वाष्ट्रोलो मश सख्यौ सख्योः सख्योरेव वीर्यम् धत्ते तस्माद्राजन्य ऊर्बलीभावुकः चितिपृष्ठौ बालृहस्पत्यौ पृष्ठे ब्रह्मवर्चसमेवोपरिष्टाद्धत्ते अथो कवचे एवैते अभितः पर्योहते तस्माद्राजन्यः सन्नद्धो दीर्घ्यम् करोति धात्रे पृषोदरमधस्तात् प्रतिष्ठामेवैताम् कुरुते अथो इयम् वै धाता अस्यामेव प्रतिष्ठति शौर्यम् बलक्षम् पुच्छे उत्सेधमेव कम् कुरुते तस्मादुत्सेधम् भये प्रजा अभिसर्गः स्रजन्ति ओ इति तृतीयाष्टः अष्टमः